एवत् दशकम् मत्रलीलेगल् प्रागेवाचार्यपुत्राकृतिनि च मनया स्वीय षट्सूनुवीक्षाम् काङ्क्षन्त्या प्राप्यते नार्चितस्त्वम् दातुच्छाभाग्रण्यान्वितगशिबु भवान् चौरिजान् कम् स भघ्नान् आनीयैनान् प्रदर्श्य स्वबदमनयत पूर्वपुत्रान् मरीषे श्रुदेव इति श्रुतम् द्विजेन्द्रम् बहुलाश्वम् नृपतिम् च भक्तिपूर्णम् युगपत्त्वमनुग्रहीतु काम मिथिलाम् प्रापित तापसै समेत विमूर्ति गिमूर्तिभुकबन्केत भूरी विभवैर्पचार अन्न तद्दीन भ्रृत पलौधनाल्य प्रसेति तथात च मुक्ति पूयो तद्वारवत्याम् द्विजतनयमृतिम् तत्प्रलाभानवित्वम् को वा दैवम् निरुन्ध्या दिति किल कथयन् विश्ववोढाप्यसोढा जिष्णोर्गर्वम् विनेतुम् त्वयि मनुजति याम् कुण्ठिताम् सास्य बुद्धिम् तत्त्वारुढाम् प्रेक्षने नेति नष्टा अष्टास्य पुत्र पुनरपि तूपेक्षया कष्टवाध पष्टो जातो जनान अततदवसरे तदवसरे द्वारकामापपार्था मैत्र्या तत्रोषितोऽसौ नवमसुत मृद विप्रवर्य प्ररोधम शुवा चक्रे प्रति अृतसुत सवेशे कृशानु मनी सृष्ट्वाच निलय गाणाललमस्त्री वृन्दानस्तूतिगेहम् पुनरपि सहसा दृष्टनाष्टे कुमारे याम् यामैन्द्रीम् तदान्याम् सुरवरनगरीर्विद्यया साध्य सद्यो मोगोत्योगप्रतिक्ष्यन् हुदभुजि भवता सस्मितम् सार्धम् तेन प्रतीशे विशमतिजविना श्यन्दनेनाभियातो लोकालोकम् व्यतीतस्तिमिरबरमथो चक्रदाम्ना निरुन्धन् चक्राम् सुक्लिष्टदृष्टिम् स्थितमत विजयम् पश्य पश्येति वारा पारे त्वम् प्रादर्श किमपि हितमसाम् दूरदूरम् पदम् ते तत्रासीनम् भुजङ्गादिपशयनतले दिव्यभूषाद्युदाध्ये आवीतम् पीतशेलम् प्रतिनव जलत श्यामलम् श्रीमदङ्गम् मूर्तीनामीचितारम् परमिगदिषृणा एकमर्तम् श्रुतीना मेव त्वम् परात्मन् प्रियसकसहितो नियमितक्षेमरूपम् युवा मामेव द्वावतिगविवृतम् धान्तर्हितया विभिन्न सन्द्रष्टुम् स्वयमहम् अहाशम् दिजसुतान् न एदम् प्रागेतानिति वितीर्णान् पुनरमोन् द्विजाया दाया धा प्रणुतमहिमा पाण्डुजनुषाम् एवम् नानाविहारैर्जगत विरमयन् वृष्णिवंसम् प्रपुष्णन् ईजानो यज्ञवेतये अतुलविहृदि बे प्रणयन् नेणनेत्राम् भूमारक्षेपदम्भात् पदकमलजुषाम् मोक्षणायावतीर्ण पूर्णम् ब्रह्मैव साक्षात् यदुषुमनुजत रोषितस्त्वम् व्यलासी प्रायेण द्वारवत्त मृदयि दत नारदस्तत्र खलु सुकृतनिदेस्त्वत्पिता तत्त्वबोधम् भक्तानामग्रयायी स च खलु मतिमान् उद्धवस्त्वत्त एव प्राप्तो विज्ञानसारं सखिल जनहिता यादुनास्तेपदर्याम् सोऽयम् कृष्णावतारो जयति तव विभो यत्र सौहार्तबीति स्नेहद्वेषानुराग प्रभृतिभिः अदुलैरश्रमैर्योगवेथै आर्तिम् तीर्त्वा समस्तामृदपदमगो सर्वतः सर्वलोका सत्त्वम् विश्वार्तिशान्त्यै पवनपुरपते भक्तिपूर्त्यै च भूयाम् भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मोटमते